श्रीहरये नमः अथ षट्पञ्चाशत्तमोऽध्यायः श्रीसुक सत्राजितस्वतनयां, सत्प्राजितस्वतनयां कृष्णाय कृतकल्भिषः शमन्तकेन राजोवाच सत्रा जितः किमकरोत् ब्रह्मण् कृष्णस्य किल्बिषन् शमन्तककुतस्तस्य कस्माद्धत्ता सुता हरेः श्रीशुक उवाच आसीत् सत्रा जितः सूर्यो भक्तस्य परमस्सख प्रीतस्तस्मै मणिं ब्राधात् सूर्यस्तुष्टशमन्तकं स तं बिब्रह्मणिं कण्टे भ्राजमानो यथारभिः प्रविष्टो द्वारकां राजन् तेजसो नोपलक्षितः तं विलोक्य जना दूरात् तेजसामुष्टदृष्टयः दीव्यतेक्षैर्भगवते ससंशुस्सूर्यसङ्किताः नारायणनमस्ति स्तु शङ्खचक्रगधाधरा दामोदर अरविन्दाक्ष गोविन्द यधुनन्दन एष आयाति सविता त्वां दितृक्षुर्जगत्पते मुष्णन् गभस्तिचक्रेण निनां चक्षुं षिधिग्मगुः ननु अन्विच्छन्ति ते मार्गं त्रिलोक्यां विबुधर्शभाः ज्ञाद्वाद्यगूटं यदुशो द्रष्टुं त्वां यात्यजः प्रभो श्रीसुक उवाच निशम्यबालवचनं प्रहस्य अम्बुजलोचनः प्राहना सौरभिर्देवस्तत्रा जिन्मणिना ज्वलन् सत्रा, ज्वलन। सत्रा जित्स्वगृहं श्रीमत्कृतकौतुकमङ्गलम् प्रविश्य देवसधेन दिने दिने स्वर्णभारानष्टौ ससृजति प्रभो दुर्भिक्षमार्ग्यरुष्ठानि सर्वादिव्याधयो न सन्ति मायिनस्तत्र यत्रास्तेभ्यर्चितो मणिः सयाचितो मणिं क्वापि यदुराजाय नैवार्थकामुखप्राधायाज्ञा भतर्कयन् तमे गता मणिं कण्ठे प्रतिमुच्य महाप्रभं प्रस्येनो ह्यमारुह्य मृगयां व्यचरत्वने प्रेषणम् सखयम् हत्वा मणिमाचित्य केशरे गिरिम् विषञ्जाम् भवता निहेतोमणिमिच्छताम् सोऽपि चक्रे कुमारस्य मणिं क्रीडनकम्बिले अपश्यन् भ्रातरं भ्राता सत्रा जित्पर्यतप्यतः रायकृष्णेन निखतो मणिग्रीवो वनं गतः भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णजभञ्जनाः भगवानस्तदुपसृत्य धुर्यसो लिप्तमात्मनि माष्टुं प्रसेन पदवीम् प्रसेनम् अश्वं च वीक्षके सरिणा तं चाद्रिपृष्ठे निहतं वृषेण दतृषुर्जनाः ऋषराजविलम्बीमम् अन्देन तमसावृतं ये को विवेशभगवान् अवस्थाप्य बहिर्प्रजाः तत्र दृष्ट्वा मणिश्रेष्ठं बालक्रीडनकं कृतं हर्तुं कृतमतिस्तस्मिन् अवतस्तेर्भगान्तिके तमपूर्वं नरं दृष्ट्वा धात्रिशुक्रो तच्छ्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां वरः स वै भगवतो तेन युयुधे स्वामिनात्मनः पुरुषम् प्रागृतं मत्वा कुपितो नानुभाववेत् द्वन्द्वयुद्धं सुतुमुलम् उभयोर्विगीषतोः आयुधाश्मद्रुमेर्धोर्भे क्रव्यार्थेश्येनयोरिव आसीद्तष्टाविंसाघम् इतरेतरमुष्टिभिः वज्रनिष्पेशपरुषैः अविश्रमम् अकर्निशं कृष्णमुष्टिविनिष्पात निष्पिष्टाङ्गोरु बन्धनः क्षीणसत्त्वस्मिन्नगात्रस्तमाक अतीव विस्मितः जाने त्वां सर्वभूतानां प्राणवोजः सहो बलं विष्णुं पुराणपुरुषं प्रभविष्णुं मदीश्वरं त्वं हि विश्वसृजां स्रष्ठात् सृज्यानापि यच्छ सत् कालः कलयतामीश यस् एषत् उत्कलितरोक्षकटाक्ष मोक्षे वर्त्मादिषत्क्षुभितनग्रतिमिङ्गिलोब्धि सेतुकृतस्वय स उज्ज्वलिता चलङ्का इति विज्ञातविज्ञानं विज्ञानं व्याजहारमकारा ज भगवान् देवकीसुतः अभिमृष्यारविन्दाक्षपाणिना शङ्करेण तं कृपया परया भक्तं प्रेमगम्भीरया मणिकोतोरिह प्राप्ता वयं वृषपतेऽभिलं मिथ्याभिशापं भ्रम् मृजन्नात्मनो इत्युक्त स्वां दुःखितरं कन्यां जाम्बवतीं मुदा अर्हणार्थं समणिना कृष्णायोपजहारः अदृष्ट्वा निर्गमं सौरे प्रविष्टस्य बिलं जनाः प्रीतीक्षद्वातसाहानि दुःखिता स्वपुरं ययुः नकधुन्दुभिः सुहृदो ज्ञातयो चोचन् बिलात् कृष्णम् राजितं सपन्तस्ते दुःखिता तु देव्युपस्थानात् प्रत्यादिष्टाशिषा स च लभ्य ऋषिकेशमृतं पुनरिवागतं सह पत्न्या मणिग्रीवं सर्वे जातमहोत्सवाः सत्राजितं समाहूय सभायाम राजसन्नितो प्राप्तिं चाक्याय भगवान् मणिं तस्मै न्यवेदयत् स रत्नं गृहीत्वा वाङ्मुखस्ततः अनुतप्यमानो भवनमगमत्स्वे न सोऽनुध्यायन्तदेवाघम् बलवद्विग्रहाकुलः कथं मृजां यात्मरज प्रसीदेत्वाच्युतः कथम् किं कृत्वा द्रविणलोलुपम् दास्ये दुःखितरं तस्मै स्त्रीरत्नं रत्नमेव च उपायोऽयं समीचीनस्तस्य शान्तिर्न चान्यताम् एवं व्यवसितो बुद्ध्या सत्राजित् शुभां मणिं च कृष्णायो भजहारः तां सत्यभा मां भगवानुपयमे यथा विधि बहुभिर्याचितां शीलरूपधार्य गुणान्वितां भगवानाखनमणिं प्रतीचामो वयं नृप तवास्तां देवभक्तस्य वयं चपलभागिनः इति श्रीमद्भगवते महापुराणे दशमस्कन्ते उत्तरार्देशमन्तक उपाख्यान षट्पञ्चाशत्तमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथ महराज की जय